श्रीहरये नमः अत द्वितीयोऽध्यायः भवे सीलवतां श्रेष्ठे दक्षो दुहेत्रोवत्सलहा विद्वेषमकरोत् कस्मात् कस्तं चरारगुरुं निर्वैरं शान्तविग्रहम् आत्मा रामं कथं द्वेष्टि जगतो दैवतं महत् एतदाज्ञाहि मे ब्रह्मन् जामातु स्वसुरस्य च विद्वेषस्तु यतः प्राणान् तत्यजे दुस्त्यजान् सती पुरा विश्वसृजां सत्वेन् समथा परमर्शयः तथा मरगणा सर्वे सानुकामुनयोग्नयः तत्र प्रविष्टमृषयो दृष्ट मार्गमिव रोचिषा वितिमिरं कुर्वन्तं तन्महत्सदः उदस्तिष्ठन् स स्वतिष्णेभ्य सहाज्ञयः ऋते विरिञ्चं सर्वं च तत् भाषा क्षिप्तचेतसः सदसत्पथिभिर्दक्षो भगवान् सा तु सत्कृतः अजं लोकगुरुं नत्वा निशसाधदधाज्ञया मृढं दृष्ट्वा नामृष्यत्तधनाधृतः उवाच वामं चक्षुर्भ्याम् श्रूयतां ब्रह्मर्श्यो मे सह सहाग्नयः साधूनां ब्रुवतो वृद्धं नाज्ञानात्म ना च मत्र सत् अयं यशोग्नो निरपत्रभः सद्भिराचरितः पन्त येन स्तब्धेन दूषितः ये, ये मे शिष्यतां प्राप्तु यन्मे दुःखितो अग्रहीत पाणिं विभ्रामुकथ सावित्र्या इव साधुवत् गृहीत्वा मृगसावाक्ष्यां पाणिं मर्कटलोचनः प्रत्युत्थान अभिवादार्हे वाचप्यकृतनोचितं लुप्तक्रियाया सूचये मानिने भिन्न सेतवे अनिश्चन्दव्यधाम्बाला शूद्रा एवोऽसितिं गिरं प्रधा वासेषु घोरेषु प्रतैर्भूतघणैर्व्रतः अटत्युन्मत्तवदनग्नो प्रेतश्रक्कस्तिभूषणः शिवापदेशोख्यशिवो ह्यशिवो मत्तो मद्दजनप्रियः पथिः तमो मात्रात्मकात्मनां तस्मा उन्माधनाथाय नष्टशौचाय दुर्हृदे धत्ता भतमया साध्वे विनिध्यैवं सगिरिसम् अप्रदीपं अवस्थितं दक्षताप उपस्पृश्य क्रुद्धः सप्तुं प्रचक्रमे अयं तु देवय देवै देवगणाधमः निषिध्यमानस सधस्य मुख्ये दक्षो गिरित्राय विसृज्य मन्युज्जगामकौरव्यनिजं निकेतनं विज्ञाय सापं गिरिशानुगाग्रणी नन्दीश्वरो रोक्षकषाय दूषितः दक्षाय सापं विससर्जदारुणं ये चान्वमोदन् तदभाष्यतां द्विजाहां द्रह्यत्यज्ञपृथक् दृष्टे तत्पथो विमुखो भवेत् गृहेषु कूटधर्मेषु सक्तो ग्राम्यसुखेच्छया कर्मतन्त्रं विदनुते भेदवाद्विपन्नधीर्बुद्ध्या परा पराभिध्यायिन्या विस्मृधात्मगदिवसुः स्त्रीकामक्सोस्त्वदितरां दक्षोभस्तमुकोचिरात् विद्या बुद्धिरविद्यायां कर्म मय्यामसौ जडः संसरन् विहये चाममुनो सर्वावमानिनम् गिरक्षुधाय पुष्पिण्या मधुगन्तेन भूरिणा मत्ना चोन्मतितात्मनाः सम्मुह्यन्तु हरद्विषः सर्वभक्षाद्विजावृत्यै धृतविद्या तपोव्रताः तस्यैवं धततः शापं श्रुत्वा द्विजकुलाय मे बृहप्रत्यश्रुजचापं ब्रह्मदण्डं दुरत्ययं भव्रतधरा ये च पाघण्टिनस्ते भवन्तु सश्चास्त्रपरिबन्दिनः नष्टशौचा मूढधियो जडाभस्मास्ति धारिणः विशन्तु शिवदीक्षायां यत्र दैवं सुरासवं ब्रह्म यत्यूयं परिनिन्दत सेतुं विधारणं पुंसाम् अथः पाकण्ठमश्रिताः एष एव हि लोकानां शिवः पंथा सनातनः यं पूर्वे चानुसन्तस्थोर्यत्प्रमाणं जनार्दनः तद्ब्रह्मपरं शुद्धं सतां वर्त्मसनातनं विहर्ह्य दैवं वो यत्र भूतराट् मैत्रेय उवाच तस्यैवं वदतः शापं भृकोश भगवान् भवः तेऽपि विश्वश्रुजः सत्रं सहस्रपरिवत्सरान् संविदाय महेश्वास यत्रे जरुषभोगरिः आप्लुत्या ववृतं यत्र गङ्गायमुनयान्विता विरजेन आत्मना सर्वे स्वं स्वं धामयुस्ततः इति श्रीमद्भागवते महापुराणे चतुर्थस्कन्धे दक्षसापो नाम द्वितीयोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरुनाथमघराजिके जये